श्रीमद्भागवत् महापुराणं दसंस्कन्ध द्विपञ्चाशत्तमोऽध्यायः श्रीशोकुवाच राजा सिद्धिस्मको नाम विदर्भाधिपतिर्महान् तस्य पञ्चाभवन्पुत्रा कन्यैका च वराननां रुक्म्यग्रजो रुक्मरथो रुक्मबाहूरनन्तर रुक्मुकेशोरुक्मुमालीरुक्मिण्येषां सुशा सती सोपसृत्य मुकुन्दस्य रूपवीर्यगुणाश्रय गृहागतिर्गीयमानास्तं मेन सज सम्पतिं तां बुद्धिलक्षणोदार्य रूपशीलगुणाश्रयां कृष्णस्य सदृशं भार्यां समुद्रोढुं मनोदधे बन्धूनामिजतां दातुं कृष्णाय भगिनीं नृप ततो निवार्य कृष्णद्वीन् रुक्मी चैद्यममन्यतम् तदवेत्यासितापाङ्गी वेदर्भीदुर्मनाभिषं विचिन्त्याप्तं द्विजं कश्चेत् कृष्णाय प्राणिहों प्राणिदोद्धृतं द्वारिकां समभ्रीं समभ्येत्य प्रतिहारे प्रवेशितः अपश्यद्दाद्यं पुरसम् आसीनं काञ्चनासदे दृष्ट्वा ब्रह्मण्यदेवस्तम् अवरुह्य निजाचनात् उपवेशार्ह्याश्चक्रे यथात्मानं दिवौकशः तं भोक्तवन्तं रशान्तमुपगम्य सतां गतिः पाणिनाभिमृशन्पादान्वव्यग्रस्तमपेक्षत कस्य द्विजवरश्रेष्ठधर्मस्ते वृद्धसम्मतः वर्ततेनातिकृच्छेण सन्तुष्टमनस सदा सन्तुष्टो यर्हि वर्तेत ब्राह्मणो येन केनचि अहीयमान स्वाद्धर्माश यस्या किल कामधूम् असन्तुष्टो सकृन् आप्नोत्यपि सुरेश्वरः अकिञ्चनोऽपि सन्तुष्टश्चेते सर्वाङ्गविज्वरः विप्रान् च लाभसन्तुष्टान् साधून्भूतः निरहङ्कारिण शान्तान्नमस्ये शिरसासके कश्चिद्वकुशलं ब्रह्मन् राजतो यस्य हि प्रजा सुखं वसन्ति विषये पाल्यमानाश मे प्रियः यतस्वं आगतो दुर्गं निश्चिर्येह यदीक्षया सर्वं नो ब्रूं द्रोह्य गृह्यं चेत् किं कार्यं कुर्वाम ते एवं लीला गृहीत लीलागृहीतदेहेन तस्मै सर्वमवर्णयत् रुक्मिण्युवाच श्रुत्वा गुणान् भुवनसुन्दरसुन्वतां ते निर्विश्यकर्णविवहरैर्हरतोङ्गतापम् रूपं दिशां दिशुमतामखिलार्षलाभं तय्यच्युता विशति चरिद्रं चित्तममत्र पंमे का त्वा मुकुन्दमहति कुलशीलरूपविद्यावयो द्रविणं धामभिरात्मतुल्यं धीरापतिं कुलवतेन विणीतकन्या कालेन सिंहनर्लोकमनोभिरामं तन्मे भवान् खलु वृत्तं आत्मार्पितस्य भवतोऽत्र विभो विधेहि महवीरभागमभिमर्शतु बलिमं गोमायुवन्मृगपते बलिमम्बुराक्षूर्ते पुरतेष्ट दत्तनियमव्रतदेव विभ्र गुरुवर्चनादिभिरलं भगवान् परेश आराधितो यदिं गदाग्रजयेत्य तृणातु मेन दमघोषसुतादयोन्ये शोभाविनि त्वमजितोद्वहने विदर्भान् गुप्तसमेत प्रतनापतिभिपरीतः निर्मत्य चैद्यमगधेन्द्रपरं प्रसय्य मां राक्षसेन विधिनोद्वहवीर्यशुक्लाम् अन्तः पुरान्तरचीरं चरीमणि अन्तपुरान्तचरीं मनिहद्य बन्धुं स्वात्मन्मुदे मुद्वहे कथमिति प्रवृतामिपायं पूर्ववेद्युरस्ति महती कुलदेवि जात्रा यस्याम्बहिर्णबुधिर्गिरिजामुपेया यस्याङ्गिप्रङ्गजरज स्नपनं महान्तो वाञ्छन्तु मापतिं द्रिवात्मतमों पहद्यै जर्हम्बुजाक्षनलभेय भवद्प्रसादं दयामसूनभ्रतकृशा च ब्राह्मणुवाच यद्येते गुह्यसन्देशा यद् देवा मया हृदाः विमर्शकर्तुं यच्छात्र क्रियतां तदनन्तरम् इति श्रीमद्भागवते महापुराणे पारमुञ्जां सीतायां ततं स्कन्दे रुद्रार्थे रुक्मिण्यो ज्वाहप्रस्तावे द्विपञ्चाशत्तमोऽध्यायः